हरि ओम् श्री सीता रामचन्द्राभ्याम नमः अथ श्रीमद् वाल्मीकि रामायण युद्धकाण्डे षोडशाधिकशतमः सर्गः श्रीरामायण शोपालम्भम् प्रतिवचनं दत्त्वा स्वस्वती स्वीक्षार्थं सीताया अग्नौ प्रवेश एवम् उक्ता वैदेही वैदेहि परुषं रोम राघवेण सरोषेण श्रुत्वा प्रव्यथिता भवेत् सा तदा हि जने महति मैथिली श्रुत्वा भर्तृवचो घोरम् लज्जया वनता भवेत् प्रविशन्तीव गात्राणि स्वामि सा जनकात्मजा वाक्षरैतैः स ततो बाष्पे परिक्लीन्नम् प्रमाजन्ति स्वमाननम् नैर्गद्गत या वाच भटारुमिदमब्रवीत् किम् मम असदृशं वाक्यम् ईदृशं श्रोत्र दारुणम् वृक्षम् श्रावयसे वीर प्राकृताय प्राकृतामिव न तथास्मि महाबाहु यथा मामवगच्छसि प्रत्ययम् गच्छमेश्व चारित्रेणैव न पृथक् त्रीणाम् प्रचारेण गातिं तं परिशङ्कसे परित्यजनाम् शङ्कां तु यदि तेऽहं परीक्षिता यदहं गात्र संस्पर्शं गतास्मि विवशा प्रभु कामकारो न मे तत्र दैवं तत्रापराध्यति मदधीनं तु यत्तन्मे हृदयं त्वयि पराधीनेषु गात्रेषु किं करिष्याम्यनीश्वरी सः संवृद्धभावेन संसर्गेण च मानद दे। यदि तेऽहं न विज्ञाता हठाते न आत्मशाश्वतम् प्रेषितस्ते महावीरो हनुमान्दवलोककः लङ्कास्थाहं तया राजन् किं तदा विसर्जिता प्रत्यक्षं वानरस्यास्य तद्वाक्यसमनन्तरं त्वया सत्यक्तया वीर त्यक्तं स्यात् जीवितं मया न स्यात् संशयेन्यस्य जीवितं सुरजन परिक्लेशो न चायं विफलस्तव त्वया तु नृपजा दूर रोषमेवानुवर्तत लघुनैव मनुष्येण श्रीतम्भेव पुरस्कृतम् अपदेशो मे जनकान् नोत्पत्तिव सुधासलत् मम च वृत्तन्य बहुतेन पुरस्कृतं न प्रमाणे कृतपाणि बाल्ये मामनुपीडितः मम भक्ति च शीलं च सर्वं ते पृष्ठतः कृतम् इति ब्रवन्ति रुदती बाष्पगद्गदभाषिणी उवाच लक्ष्मणं सीता दीनं ध्यानपरायणम् चिदाम्बे कुरु मित्रे व्यसनस्यास्य भेषजम् मिथ्यापवादोपहृता नाहं जीवितुमुत्सहे अप्रीतेन गुणैर्भर्त्रा त्यक्ता यायन संसदि या क्षमात्मगतिर्गन्तुम् प्रवेक्षे ह्यव्यवहनम् एवम् उक्तस्तु लक्ष्मणः परवीरहर अमशे विषमापन्नो राघवं समुदैक्षते स विज्ञाय मनच्छन्नम् रामस्याकार सूचितं चितां चकार सौमित्री मते रामस्य वीर्यवान् नहि रामं तदा कश्चित् कालान्तकयमोपमम् अनुनेतु मथो द्रष्टुं वाप्यशकुरुत् अधोमुखं स्थितम् रामम् तत् कृत्वा प्रदक्षिणम् उपावर्तत वैदेहि दीप्यमानं हुदाशनम् प्रणम्य दैवतेभ्यश्च ब्रह्मणेभ्यश्च मैथिली पद्धाञ्जलि पुटाचेदम् वाचाग्निः समीपतः यथा मे हृदयं नित्यं नापसर्पति राघवत् तथा लोक स साक्षे मावक यम शुद्धचारीघव तथा लोक स साक्ष्यम सर्वथ पावक कर्मण मनसा वाचा यहाँ चराम्यह राघव सर्वधर्मज तथा पा पावक आदि भगवान वायु दिश चन्द्रस्तथैव चापि तथा सन्ध्ये रात्रि च पृथिवी तथा यथान्येऽपि विजानन्ति तथा चारितसंयुताम् एवं मुक्त्वा तु वैदेहि परिक्रम्य हुताशनं विवेशे ज्वलनं दीप्तं निशङ्केनान्तरात्मना जनश्च सुगमान् बालवृद्ध समाकुलः ददर्श मैथिलीम् दीप्ताम् प्रविशन्तीं हुताशनम् सा तप्त न वहे मा भ तप्त काञ्चन भूषण पपात ज्वलनम् दीप्तम् सर्वलोकस्य सन्निधौ ददृशस्ताम् महाभागाम् प्रविशन्तीं हुताशनम् ऋषयो देव यज्ञे पूर्णाहुतिमिव प्रचुक्षुषु श्रियस्सर्वा ताम् दृष्ट्वा हव्यवहने पतन्तीम् संस्कृता मैत्री मन्त्रै वसोधारामिव ध्वरे ददृशुस्तान् त्रयो लोका देव गन्धर्व दानवः शप्ताम् पतन्तम् निलये श्रीदिव देवतामिव तस्यामग्निम् विशन्त्याम् तु हा हेति विपुलस्वनः रक्षतां वा नराणां च सम्बभूवाद्भुतोपमः इत्याख्ये श्रीमद् रामायणे वाल्मीकि अधिकारे युद्धकाण्डे षोडशाधिकशतमः सर्गः